तस्यास्तीरे भगवतः काश्यपस्य महात्मनः आश्रमप्रवरम् रम्यम् महर्षिगणसेवितम् नदीमाश्रमसम्बद्धाम् दृष्ट्वाश्रमपदम् तथा चकाराभिप्रवेशाय मतिम् सन्नृपतिस्तदा अलङ्कृतम् त्वीपवत्या मालिन्या नरनारायणस्थानम् गङ्गयेवोपशोभितम् मत्तबर्हिण सङ्घुष्टम् प्रविवेशमहत्वनम् तत्स चैत्ररथप्रख्यम् समुपेत्य नरर्षभः अतीव गुणसम्पन्नमनिर्देश्यम् च वर्चसा महर्षि काश्यपम् द्रष्टुमथ कण्वम् अवस्थाप्य वनद्वारिसेनामिदमुवाचसः मुनिम् विरजसम् द्रष्टुम् गमिष्यामि तपोधनम् काश्यपम् स्थीयतामत्र यावदागमनम् मम तद्वनम् नन्दनप्रख्यमासाद्यमनुजेश्वरः क्षुत्पिपासे जहौ राजा मुदम् चावापपुष्कलाम् सामात्यो राजलिङ्गानि सोपनीयनराधिपः पुरोहितसहायश्च जगामाश्रममुत्तमम् दिदृक्षुस्तत्र तमृषिम् तपोराशिमथाव्ययम् ब्रह्मलोकप्रतीकाशमाश्रमम् सोऽभिवीक्ष्यः षट्पदोद्गीतसङ्घुष्टम् नानाद्विजगणायुतम् ऋचो बह्वृच पदक्रमैः शुश्रावमनुजव्याघ्रो कर्मसु यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः भारुण्डसामगीताभिरथर्वशिरसोद्गतैः यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः अथर्ववेदप्रवराः पूगयज्ञेयसामगाः संहितामीरयन्ति स्म पदक्रमयुताम् तु ते शब्दसंस्कारसंयुक्तैर्ब्रुवाद्भिश्चापरैर्द्विजैः नादितः सबभौ श्रीमान् ब्रह्मलोकैवापरः यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः न्यायतत्त्वात्मविज्ञानसम्पन्नैर्वेदपारगैः नानावाक्यसमाहारसमवायविशारदैः विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः स्थापनाक्षेपसिद्धान्तपरमार्थज्ञताम् गतैः शब्दच्छन्दो निरुक्तज्ञैः कालज्ञानविशारदैः द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः नानाशास्त्रेषु मुख्यैश्च शुश्रावस्वनमीरितम् लोकायतिकमुख्यैश्च समन्तादनुनादितम् तत्र तत्र च विप्रेन्द्रान्नियतान् संशितव्रतान् जप होमपरान् विप्रान्तदर्श परवीरः आसनानि विचित्राणि रुचिराणि महापतिः प्रयत्नोपहितानि स्मृष्ट्वा विस्मयमागमत् देवतायतनानाम् च प्रेक्ष्य पूजाम् कृताम् द्विजैः ब्रह्मलोकस्थमात्मानम् मेने सन्नृप सप्तमः सकाश्यप तपोगुप्तमाश्रमप्रवरम् शुभम् नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम् सकाश्यपस्यायतनम् महाव्रतैर्वृतम् समन्तादृष्टिभिस्तपो धनैः विवेशसामात्यपुरोहितोरिहाविक्तमत्यर्थमनोहरम् शुभम् इति श्रीमहाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने सप्ततितमोऽध्यायः